किरीटं कालनेत्रार्चिशादग्धपञ्चेषु पीटं शूलाहतारातिकूटं शुद्धमध्वेन्दुचोडं भजे मार्गबन्धं भजे मार्ग र्चिषा दग्धपञ्चेषु जद्भुजङ्गम् अभ्रगङ्गा तरङ्गाभिरामातमाङ्गं ओङ्कारवाटी तुरङ्गम् सिद्धसं भजे मार्गबन्धुं भजे मार्गबन्धुं भजे मार्गबन्धम् रङ्गाभिरामोत्तमाङ्गं ओङ्कारवाटीकुरङ्गम् सिद्धसं सेविताङ्घ्रिं भजे मार्गबन्धुं भजे मार्गबन्धुं भजे मार्गबन्ध शम्भो महादेवदेव शिव शम्भो महादेवदेवे शशं नन्दरूपम् निह्नुताशेषलोकेशवैरिप्रतापं पार्थस्वरागेन्द्रचापम् तृत्तिवासं भजे दिव्यसन्मार्गबन्धं सन्मार्गबन्धं सन्मार्गबन्धम् सन्मार्ग नित्यं चिदानन्दरूपम् विघ्नकाशेशलोकेश वैरिप्रतापं कार्तस्वरागेन्द्रचापम् अदर्पीन् बालं <laughs> च अप्पैयज्वेन्द्रगीतम् स्तोत्र रागं पठेत्यस्तु भक्त्या प्रयाणे तस्यार्थसिद्धिं विधत्ते मार्गमध्ये भयं महेशः आशुतोषी महेशः